अत द्वितीयाष्टक अष्टमप्रश्नप्रारम्भः पिबोन्नागुम् एवृधस्व मेधाः श्वेतस्य शक्तिन्युतामभि श्रीः ते वायवे समनसो वितस्थुः निश्येन्नरस्वत्यानुचक्रुः रायेणनु यञ्जज्ञदू उभे राजे देवे धिषणाधाति देवम् अधा वायन् युतस्त तस्वाः उतश्वेतम् वसुधिजन्यरेके आवायोजो प्रजाभिः प्रवायुमच्छा बृहती मनीषा बृहद्रयम् विश्ववा रागुम् रथप्राम् युतद्यामानियुतः पत्यमानः कविः कविमि यक्षसि प्रयज्ञो आलो नियुद्भिः शतिनीभिरध्वरम् सहस्रिणेभिरुपयाहि अस्मिन् हविषिमादयस्व यूयम् प्रजापतेन त्वदेतान्यन्यः विश्वाजातानुपरिता बभूव यत्कामास्तेजुहुमस्तन्नो अस्तु वयग् स्यामपतयो रगीणाम् रगीणाम् पतिम् यजतम् बृहन्तम् अस्मिन्भरेणृतमम् वादसातो प्रजापतिम् प्रथमजामृतस्य यजामदेवमधिनो ब्रवीतो प्रजापते त्वन्निधिपाः पुराणः देवानाम् पिता जनिता प्रजानाम् प्रतिर्विश्वस्य जगतः परस्पाः हविर्नो देव विहवे दुषस्व तवे मे लोकाः प्रतिशोदिषश्च परावतो निगत उद्गतश्च प्रजापते विश्वसिज्जीवधन्यगन्नो देव प्रतिहर्यहव्यम् प्रजापतिम् प्रथमै यज्ञजानाम् देवानामग्रे जतव्यजध्वम् सणो ददातु द्रविणगुम् सुवीर्यम् राजस्पोषम् लिष्यतु नाभिमस्मे यो राजनीशेषतदाय शत शतदाय यः पशुरागुम् रक्षिता विष्ठितानाम् प्रजापतिः प्रथमचारितस्य सहस्रधामादिषकागुहबविर्णः सोमापूषणे वौ देवौ सोमापूषणारजसो विमानम् सप्तचक्रगुम् रथमविश्वमिन्वम् विश्ववृतम् मनसा युज्यमानम् पञ्जिन्वथो कृषणा पञ्चरश्मीम् दिव्यन्यः सदमञ्चक्र उच्चा पृथिव्या मन्यो अभ्यन्तरिक्षे तावस्मभ्यम् पुरुवारम् पुरुक्षम् यस्पोषम् इष्यतान्नाभिमस्मे धियम् पूषा जिन्वतु विश्वमन्वः एवम् सोमो रयिपतिर्दधातु अवतु देव्यदितिरनर्वा बृहद्वयेम विदधे सुवीराः स्वान्यो भुवना जान विश्वमन्यो अभिचक्षाणयेति सोमा पूषणा भवतम् धियम् मे भवभयाम् विश्वा स्पृतराजयेम यत्किञ्चेदङ्कितवासः अवते हेडस्तत्पायामि आदित्यानामवसानदक्षिणा धारयन्त आदित्या सस्तिस्रो भूमेर्धारयन् यज्ञो देवानागुंशुचिरपः ते शुक्रा सश्रुचयोरश्मिवन्तः श्रीदन्नादित्या अधिपरिःषिप्रिये कामेन देवाः सरथम् दिवो नः आयान्तु ते सो नवो अरितेऽस्पी वसामिषम् धृतम् पिन्वत्प्रतिहर्यन् नृतेजाहारयज्ञया यजमानाय ये, ये मुरे आदित्याः कामम् पितुमन्तमस्मे आयः पुत्रादितेर्घान्तु यज्ञम् आदित्या सह पृथिभिर्देवजानैः अस्मेकामन्दाशुषे सम्नमन्तः पुरोडाशङ्घितवन्तम् ऋषन्ताम् स्वभाजत निर्मिति पुंसेहतामतिम् ररश्मिभिर्यतमानाः अमृध्राः आदित्याः कामप्रयताम् वशकृतिम् द्विषध्वन्नो हव्यजाति यचत्राः आदित्यान् काममवसे हुवेम ये भूतानि जनयन्तोऽपि चिख्युः श्रीदन्तु पुत्रालितेरुपस्थम् श्रीर्णम् बलिहिरह विरद्यायदेवाः श्रीर्णम्बरिः स्रीदता यज्ञे अस्मिन् ध्राजा सेधन्तो अमतिन्दुरेवा तस्मभ्यम् पुत्रा अलितेः प्रयगुंसता आदित्याः कामः विषोयुषाणाः अग्ने नयसुपथा राजे अस्मान् विश्वानि देववलुनानि विद्वान् विदोध्यस्मज्जुहुराण मेनः भूयिष्ठान्ते मम उक्तिम् विधेम रवः सुप्राय भालवे भरध्वम् हव्यम् मतिम् साग्नये सुभूतम् यो दैज्ञानमानुषा जनोपुंशे अन्तर्विश्वानि विद्मना जगाति अच्छा गिरो मतयो दे वजन्तेः अग्नेयम् च द्रविणम् भिक्षमाणाः सुसन्दृतगुंसुप्रतीकव्यस्वञ्चम् अव्यवाहमरतिम् मानुषाणाम् अग्नेत्वमस्मद्ययोध्यमीवाः अनग्नित्वाभ्यमन्तकृष्टेः पुनरस्मभ्यगुंसभिताज देवा क्षाम् विश्वेभिरजरेभिर्यजत्र अग्नेयत्वम् पारजानम् च अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा कोस्तपृच्छेपदान भवातो कागतनजागशयोः प्रकारवो मनना वच्यमानाः देवद्रीचेन्न यथ देवयन्तः दक्षिणावाड्वाजिनि प्राच्येति हविर्भरम् त्यग्मये इन्द्रन्नरो युजे रथम् जगुर्भ्राते दक्षिणमिन्द्रहस्तम् वसूयवो वसुवते वसूनाम् यद्माहि त्वा गोपदिगुंशूरगोनाम् अस्मभ्यम् चित्रम् वृषणगम् रजिङ्गा आह कवेदम् विश्वमभितः यत्पश्यसि चक्षसा सूर्यस्य गवामसि गोपतिरेक इन्द्र भक्षि महिते प्रयतस्य वस्वः समिन्द्रणो मनसा नेषु गोभिः सदंसो रभिर्मघवान्सगस्वस्या सम्ब्रह्मणा देव यदस्ति संदेवानागुं आराच्छत्रुमवबाधस्वदूरम् उग्रोजः श्रम्भः पुरोहोततेन अस्मेधेहि यद्गोमदिन्द्र कृधीधियम् चरित्रे वाचरत्नाम् आवेधसपुंसरि शुचिः बृहस्पतिः प्रथमम् जायमानः महो व्योमन् सत्तास्यस्तु विजातो रवेण रश्मिरथमत्तमागुंसे बृहस्पतिः समज यद्वसूने महो व्रजान् गोमतो देव एषः अपश्यशासां सुवरप्रतीतः बृहस्पतिर्हन्त्यमित्रमर्कैः बृहस्पते वर्ये वापित्रे आनो दिवः पावीरवी इमा जुह्वानागस्ते स्तनः सरस्वत्यभिनो नेषि सानुकिरीणान्तविषेभिरोर्णिभिः पारावलध्नीमवसे सुवृत्तिभिः सरस्वतीमाविवासेमधीतिभिः सोमो धेनुकुम् सोमो अर्वन्तमाशुम् सोमो वीरम् कर्मण्यम् ददातु सादन्यम् विदध्यगुम् सधेयम् इति श्रवण्यो ददाशदस्मै षाढिम् युत्सुत्वकुम् या ते धामानि हविषा यजन्ति त्वमिमा ओषधे सोम विश्वाः त्वमपोगजनजस्मङ्गाः त्वमाततम् थोर्वन्तरिक्षम् रञ्ज्योतिषा वितमोऽवर्था या ते धामानि दिविया पृथिव्याम् या पर्वतेष्वोषधेष्वप्सु ते धर्मो विश्वे सुमनारेणन् राजन् सोमप्रतिहव्यागृधाय विष्णार्मुकम् तदस्य प्रियम् प्र तद्विष्णुः परो मात्रया तनुमा वृधा न ते उभेदे भरतसे पृथिव्या विष्णो देवत्वम् परमस्य वित्से विचक्रमे त्रिर्देवः आ ते अभिगोत्राणि आभिस्पृथो मिथैररिषण्यान् अमित्रस्य व्यथयामन्युमिन्द्र आभिर्विश्वा अभियुजो विशोचीः आर्याय विशोऽपतारेऽर्दासीयेः अयगुंसृण्डे अथ जयन्नुदधिनन् अयमुत प्रकृते युधागाः यदा सत्यम् कृमुते मन्युमिन्द्रः विश्वम् दृढम् भजत एजदस्मात् अनुस्वधामक्षरन्नापो अस्य अवर्धतमध्य आनाव्यानाम् अर्धीचीनेन मनसा तमिन्द्र ओधिष्ठेन हन्मनाहन्नभिद्योन् मरुत्वम् तम् वृषभम् वावृधानम् अनवारिम् दिव्यगुम् श्वासमिन्द्रम् निःश्वासाहमवसे नूतनाय उग्रगुंसहोदा मिहतगुं हुदेम जनिष्ठा उग्रः सहसेतुराय मन्द्र ओजिष्ठो बहुलाभिमानः अवर्धन्निन्द्रम् मरुतश्चिदत्र माता यद्वीरम् दधनद्धनिष्ठा धन क्व स्यावो मरुतः यन्मामेकगुम्समधत्ताहिहत्ये अहर्गेह्योऽग्रस्तविशस्तु विश्वान् विश्वस्य शत्रोरनमम् वधस्मै भृत्रस्य त्वाश्वसखा दीशमाणाः विश्वे देवा अजहुर्ये सखायः मरुद्धिरिन्द्र सख्यन्ते अस्तु अथे मा विश्वाः पृतना जयासि वधीम् वृत्रम् अहमेतामनवे विश्वश्चन्द्राः सुगा अपश्चकरवज्रबाहुः स यो वृषा विष्णुयेभिः समोकाः महो दिवः पृथिव्याश्च सम्राट् सती न सत्त्वा अन्नो भवत्मिन्द्र ऊती इन्द्रो ऋत्रमतरद्वित्रपूर्ये राजष्यो मघवाशो रविन्द्रः अन्वेनम् विशो अमदन्तपूर्वेः अयगम् राजा जगतश्चर्षणीनाम् स एव वीरः स उ वीर्यावान् जगतः परस्पाः यदा वृत्रमत रक्षोर इन्द्रः अथा भवद्गमिताभिक्रतूनाम् इन्द्रो यज्ञम् वर्धयन् विश्ववेदाः पुरोडाशस्य जुषतागम् हविर्णः गृत्क्रान्तेर्त्वादानवम् वज्रबाहुः इशो दृग्म् हदृगम् हितादृग्म् हणेन इमै यज्ञम् वर्धयन् विश्ववेदाः पुरोडाशम्प्रति गर्भत्विन्द्रः यदा रुद्रमदरच्छोर इन्द्रः अथैकराजो अभवज्जनानाम् इन्द्रो देवाञ्छम् वरहत्य आवत् इन्द्रो देवानामभवत्पुरोगाः इन्द्रो यज्ञे हविषा वा भृत्रतोर्नो अभयगुम् शर्म यगुम्स यः सप्त सिन्धो गुम् रदधात् पृथिव्याम् यः सप्त लोका न कृणो दिशश्च इन्द्रो हविष्मान्सगणो मरुद्भिः भृत्रतोर्नो यज्ञमिहोपयासत् इन्द्रस्तरः तस्य भयगुंसु मतो यज्ञस्य अपि भद्रे हिरण्यवर्णो भयम् कृणोत् अभिमातिहेन्द्रः पृतना सुविष्णुः स नः शर्म त्रिपरोधम् विजगुम्सत् योऽयम् पात स्वस्तिभिः सदा नः इन्द्रग्रस्तु हि वज्रिणग्रस्तोमपृष्ठम् पुरोडाशस्य दुषदागम् हविर्नः हत्वाभिमातेः पृतनाः अभिमातिहनम् पुरुहूतमिन्द्रम् ययेकयिच्छतपतिर्जनेषु तस्मा इन्द्राय हविराजुहोत इन्द्रो देवानामधिपाः पुरोहितः दिशाम् पतिरभवद्वाजिनीवान् अभिमातिहा च विषस्तु विष्मान् अस्मभ्यञ्चित्रम् वृषणगुम् रयिन्दात् यदि वा पृथिवीमहित्वा बलेनादृगुम् हदभिमातिहेन्द्रः सलो हविः प्रतिगृभ्रातु रातये देवानाम् देवो निधिपानो अनवस्ते अनवस्त्रेरथम् वृष्णे यत्ते इन्द्रस्य नु वीर्याण्यहम् नहिम् इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहो सेतुराजा क्षेतुचर्षणीनाम् परान्ननेमिः परिताबभूव अभिसिद्धो अजिगातस्य शत्रून् इति यमेन वृषभेणापुलोभेत् संवज्रेण सृजद्धृत्रमिन्द्रः ह्रस्वाम् मतिमतिरच्छासदानः विष्णुम् देवम् वरुणभूतये भगम् मेधसादेवावपयायजध्वम् तानो यज्ञमागतम् विश्वधेना प्रजावदस्मे द्रविणे हधत्तम् मेधसा देवावपयायजध्वम् विष्णुम् च देवम् वरुणम् तानो अमीव अपबाधमानौ इमञ यज्ञम् तुषमाणावुपेतम् विष्णो वरुणा युवमध्वरायनः निषेचनायमहि शर्म यच्छतम् दीर्घप्रयज्यो हविषावृधाना ज्योतिषारादेऽर्दह तन्तमागुंसि ययोरोचसास्कभितारजागुंसि दीर्घेभिर्वीरतमाशविष्ठा विष्णो वरुणावभिषस्ति पावाम् देवा यजन्तः विषा घृतेन अपामीवागुंसे धदगुम् रक्षसश्च यथा धत्तम् गजमानाङ्गाः हामुचा वृषभा सुप्रतोर्ती देवाना अन्देवतमशचिष्ठा विष्णो वरुणा प्रतिहर्यतन्नः इदन्नरा प्रयतमोतये हविः महीनुद्यावापृजिवी इह ज्येष्ठे रुचा भवतागुंश्यितयद्भिरर्कैः यत्स्येम् वरिष्ठे बृहते बिबिम्बन् द्रुवद्भ्योक्षापप्रधानेभिरेवैः प्रभोर्वजे पितरा नव्यसेभिः गेर्भ्यः कृणध्वगम् सदने ऋतस्य आनो वा पृथिवी दैव्येन जनेन जातम् महि माम् वरोथाम् यजिमे द्या वा पृथिवी जजाना जा उर्वी गभीरे रजसि सुमेके अवगुंसेधीरश्यासमेर भूरिन्द्वे अचरन्ती चरन्तम् परद्वन्तम् गर्भमपदे दधाते नित्यन्न सूर्यम् पित्रोरुपस्थे तम् विमृतगुम् रोदसी सत्यवाचम् इदम् द्या वा सत्यमस्तु र्मा तर्यदिहोपब्रुवे भूतम् देवानामवमे अवोभिः विद्यामेषम् वृजनम् जीवरानुम् उर्वी पृथ्वी बहुले दूरे अन्ते उपब्रुवे नमसा यज्ञे अस्मिन् दधाते ये सुभगे सुप्रतोर्ति या वा रक्षदम् पृथिवी अभुवात् या जाता ओषधज्योति परिष्ठाः ओषधयः सोमराज्ञेरश्रावतेयुम् सोमवतीम् ओषधीरितिमातरोन्याव अन्यामवत् श्रुचिह्न स्तोमग्निथग् वृत्राम् उभावामिन्द्राग्ने प्रचर्षणिभ्यः आवृत्रहणादेभ्यविप्रः ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधितनयम् च चिन्व विश्वम् तद्भद्रय्य देवाः बृहद्वदेम विदधे सुनीराः सयीगुम् सत्येभिः सखिभिः शिचद्भिः बोधाय संविधनसैरतर्दत् ब्रह्मनस्पतिर्वृषभिर्वराहैः घर्मस्वेदेभिर्द्रविणम् जाले ब्रह्मणस्पतेरभवद्यथा वशम् सत्यो मन्योर्म हि कर्मा करिष्यतः योगा उदाजत्स दिवेपि चाभजत् महेव रेतिः इन्धा नो अग्निम्बनवद्वनुष्यतः कृतब्रह्माशोषुवद्रातः व्यजित् जातेन जातमतिसृत्प्रसृगुंसते यञ यम् युजम् कृणुते ब्रह्मणस्पतिः ब्रह्मणस्पते सुयमस्य विश्वः प्रायस्यामरथ्यो विवस्वतः धीरेषु वीरागुम् उपगृन्धिनस्तम् येषा नो ब्रह्मणा वेषिमे स पुत्रैर्वाजम् भरते धनाः देवाना यः पितरमाविवासति श्रद्धामना हविषा यास्ते पूषण्णा वो अन्तः शुक्रन्ते अन्यः पूषे मा आशा आह प्रपथे पथापजनिष्टपूषा प्रपथे दिवः प्रपथे पृथिव्याः उभे अभिप्रियतमे सधस्थे आचपरा चरति प्रजानन् पूषासु बन्धुर्दिव आपृथिव्याः इडस्पतिर्मघवादस्मवर्चाः तम् देवासो अददुः सूर्यायै कामेन कृतम् तव स गृस्पञ्चम् अजाश्वः भुवने अर्पितः अष्टाम् ऊषा सञ्चक्षाणो भुवनादेव ईलते शुचिव हज्ञापरतः शुचीदाम् शुचगम्षिदाम् यद्धरगम् शुचिभ्यः ऋतेन सत्यमृतसाप आजन् शुचिजन्मानः शुचजः पावकाः प्रचित्रभर्कम् गृह्णते तु राज मारुता यस्पतपसे भरध्वम् वेदते अग्ने पृथिवीमखेभ्यः अपुंसेश्वावरुदः खादलो वः वक्षस्व रुक्मा उपशुसृजानाः विविद्युतो न वृष्टिभीरुजानाः अनुस्वधा यावः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छता हि अस्मभ्यन्तानि मरुतो नियन्त इमे तुरम् मरुतो रामयन्ति गुरुद्वेषो अररुषे दधन्ति अरा वेदचरमा अहेव कृष्णेः पुत्रा उपमासोरभिष्ठाः स्वयामत्या मरुतः सम्मिक्षुः अनुवेदायि महीन्द्रियाय सत्रा ते विश्वमनुरत्र अस्ति शिक्षासखिभ्यः पुरोहो धनुर्भ्यः हि दृढामघवन् विचेताः अपावृतिपरिवृतिर्नराधः इन्द्रो राजा जगतश्चर्षणीनाम् अभिक्षमिषुरूपम् जरस्ते ततो ददातु दाशुषेवसूने चोद्राध उपस्तुदश्चिडर्वाक तमुष्टुभि यो अभिभो योजाः पन्वन्नवातः पुरुहोत इन्द्रः अषाढमुग्रगुम् सहमानमाभिः येर्भिर्वर्धपृषभम् चर्षणीना स्थूरस्य राजो बृहतो ईशे तमुष्टवाम विदधेष्विन्द्रम् यो वायुना जयति गोमतीशो प्रभिष्णुया नय दिवस्यो सुष्मो वृषभयेत् पश्चात् ओत्तरादधरागा पुरस्तात् आविश्वतो अभिसमेत् सर्वाङ् इन्द्रद्युम् नगुम् सुवर्वद्धे हस्ते दधानो नर्यापुरोणि विवेशयम् च प्रसुवम् च भौम अभिवृतम् कृशणे विश्वरूपम् इरण्ड्यशम् यङ्गिजतो बृहन्तम् आस्थादृथगम् सपिता चित्रभानः कृष्णारजागम् स च विषयम् दधानः सधानो देवः समाजा आसा विषद्वसुपतिर्वसूनि मर्तभोजनमधरासतेन द्विजनाञ्छ्यावाश्रिपादो अख्यन् रथगुम् हिरण्यप्र उगम् वहन्तः शश्वद्दिशितुर्दैव्यस्य उपस्थे विश्वा भुवनानि तस्थुः युसुपर्णो अन्तरिक्षाण्यक्ष्यतेथः क्वेदानेकुम् सौर्यः कश्चिकेता कथमान्यागुम् रश्मिरस्याततान भगन्धियम् वा जयन्तः पुरन्धिराशुम्सोग्नास्पतिर्नो अव्यात् आये वामस्य सङ्गते रयीणाम् प्रिया आनो स विदुः स्यामा आ नो विश्वे अस्त्रागमन्तु देवाः निमित्रो अर्यमा वरुणः स जोषा आह भवनकथा न षण्णो देवा विश्वदेवा भवन्तो सर्वम् सरस्वती सह धीभिरस्तु शमभिषाचः शमुराधिषाचः शन्नो दिव्याः पार्थिवाः षण्णो अप्याः ये सितुः सत्यसमस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः ते सौ भगम्भीरवद्वो मदप्नः तथा तर द्रविणम् चित्रमस्मे अग्ने याहि दोत्यम् वारिषेण्यः देवागम अच्छा ब्रह्म कृता गणेन सरस्वतीयम् मरुतो यक्षिदेवान यक्षि देवान्रनधेयाय दे विश्वाने योऽपितः पृथिवीमातरधृक् अग्ने एभ्रादर्वसवो मृणदानः विश्व आदित्या अदिते अस्मभ्यगुम् सर्वबहुलम् ययन्त इष्ये देवाश्रुमते मगुम् हवम् मे ये अन्तरिक्षेयौ मद्यविष्ठ ये अग्निजिह्वा उत वा यजत्राः आसद्यास्मिन् बर्हिषिमादयध्वम् आवाम् मित्रावरुणा हव्यजुष्टिम् नमसा देवापवसा प्रवृत्त्याम् अस्माकम् ब्रह्म पृतनासु सख्या अस्माकम् दृष्ट्यर्विद्यासुपारा इवम् वस्त्राणि मे वसा वसाथे युवोरच्छिद्रावन्तवोः सर्गाः अवादिरतमृतानि विश्वा कृते न मित्रावरुणा सचेथे तत्स्वाम् मित्रावरुणा महि त्वाम् येर्मातस्थुषीरः भिर्दुदुह्रे विश्वा किंवधस्व सर्वस्य अनुपामेकः पविजापवर्ति यद्वगुम् ऋष्ठन्नाति विदेसुदानो अच्छ्रगम् शर्म भुवनस्य गोपा ततो नो मित्रावरुणावेषाम् सिशा सन्तो जे जिवागुम् स्याम आ नो मित्रावरुणा प्रवाहवासि श्रितम् जीवसेनः आनो गव्योतिमुक्षतम् कृतेन आनो जनेने श्रवयतम् युवाना श्रुतम् मे मित्रावरुणा हवेमा इमा रुद्राय स्थिरधन्वने गिरः त्वा दत्तेभिरुद्रसन्तमेभिः शतगुम्हिमाशीलभेषः यस्मद्वेषो वितरम् यगुम्हः इमेवागिश्चातजस्वा विशोचेः अर्हण्डि धर्षिमानस्तोके अभिनो वीरो अर्वतिक्षमेत प्रजा ये महि रुद्र बभ्रो वृषभचे गितान यथा देवन हृणीशेन हुंसि हावनश्रोर्णो रुद्रेह हा बोधि बृहद्वदेव विदधे सुवीरा आह मरिणो रुद्रस्य हेतिस्तु हि श्रुताम् मेधष्टमार्हन् विभर्षि त्वमग्ने रुद्र आवोराजानम् सूर्यो देवी वृषसहुं रोचमानामर्यः न योषामभ्येति यत्रानरोदे वयन्तो युगानि विदम्बदे प्रति भद्राज भद्राम् भद्रा अश्वा हरितः सूर्यस्य चित्रा एदग्वा अनुमाद्यासः दिवा दिव आपृष्ठमस्थुः परिद्या वा पृथिवीलन्ति सद्यः तत्सूर्यस्य देवत्वम् तन्महित्वम् मध्याकर्तोऽर्पितत पुंसञ्जभार यदेदयुक्तहरितः सधस्था ्रात्रिवासस्तनुते सिमस्मै तन्नित्रस्य वरुणस्याभिचक्षे सोर्योरूपम् कृणुतेद्योरुपस्थे अनन्तमन्यदृश तस्य पाचः कृष्णमन्यद्धरितः सम्भरन्ति अद्या देवा उदिता सूर्यस्य निरगुंहसः पिबतान्यरवद्यात् तन्नो मित्रो वरुणो मामहन्ताम् दिवो रुक्म उरुचक्षा उदेति दूरे अर्थस्तरणे भ्राजमानः नूनञ्जनाः सूर्येण प्रसूताः आयन्नर्थानि कृणमन्नपागुंसि षण्णो भव चक्षसा षण्णो अह्नाः शम्भानुनाशगुम् हिमाशङ्घृणेन यथाशमस्मै चित्रम् चित्रम् देवानामुदगादनीकम् चक्षुर्मित्रस्य वरुणस्याग्नेः आप्राद्यावापृथिवी आप अन्तरिक्षम् सूर्य आत्मा जगतस्तस्तुषश्च त्वष्टा दधस्तन्नस्तुरीपम् त्वष्टावीरम् विषङ्गरूपः दशेवम् त्वष्टर्जनयन्त गर्भम् न विरोचमानम् परिषीणयन्ति आविष्ट्यो वर्धते चारुरासो जिह्मानामोऽर्ध्वस्वयसा उपस्थेः उभे प्रष्टुर्विभ्यतुर्जायमानात् प्रतीचीसुहम् प्रतिजोषयेते मित्रो जनान्प्रसमित्र अयम् मित्रो न मस्य सुषेवः राजा सुक्षत्रो अजनिष्टभेधाः तस्य वयगुंसु मतौ अपि भद्रे सौमनसे स्याम अनमेवास इडया मदन्तः वितज्म बोपनिमन्ना पृथिव्याः आदित्यस्य व्रतमुपक्ष्यन्तः वयम् मित्रस्य सुमतो स्याम मित्रन्न एंशिन्यागोऽषु गव्यवत् विदथे अप्सजी जनन् अरे जयता गुरोदसीपाचसा गिरा प्रतिप्रियम् यजतम् जनुषामवः महाकुम् आदित्यो नमसोऽपसद्यः यात यज्जनो गृणते सुषेवः तस्मा एतत्पन्यतमा यजुष्टम् अग्नो मित्राय हविराजुहोता आबागुम् रथो रोदसी बद्बधानः हिरण्यजो वृषभिर्यात्वश्वैः धृतवर्तविः पविभीरुचानः इशाम् वोढा नृपतिर्वाजिनीवान् समप्रधानो अभिपञ्च भूम निरन्धुरो मनसा यातु युक्तः विशोये न गच्छतो देवयन्तेः कुत्रा चिद्याममश्विनादधाना स्मश्वा यशसा यातमर्वाक् दस्रा विवागुम् रथो मध्वा यागमानः अन्तान् दिवो बाधते वर्तनिभ्या युवोऽश्रियम् परियोषा वृणीता सूरो गृहीता परितक्वियायाम् यद्देवयम् तमवथश्चजीभिः परिधृपुम् स बाम्मना बाम्बयोगाम् यो हस्य वागुम् रथिरावस्त उस्राः रथो युजानः परिजातिवर्तिः तेन न शय्यो ऋषसोऽप्यष्टौ यश्विना वहतम् यज्ञे अस्मिन् युवम् भुज्युमवविद्धगुम् समुद्रे उदोहुरर्न सो अश्रिधानैः पदत्रिभिरश्रमेरव्यथिः लघुम्सनाभिरश्विना भे। पारयन्ता अग्नेशो मायो अद्यवाम् इदम् वचः स पर्यति तस्मै धत्तगुम् सुमेर्यम् गवाम्बोष्य स्वश्रियम् यो अग्निशोमा हविषासफर्यात् देवद्री च मनसा यो घृतेन तस्य व्रतगम् रक्षतम् पातमगम्भसः विशेषाजमहि शर्म यच्छतम् अग्नेशोमाय आहुतिम् यो वान्दाशाध्यविष्कृतिम् स प्रजया सुवीर्यम् विश्वमानुर्दश्नवत् अग्नेशोमाचेति तद्वीर्यम् वा यदमुष्णीतमवसम् अवादिरतम् प्रथयस्य शेषः अविन्दतञ्ज्योतिरेकम् बहुभ्यः अग्नीशोमा विमगुंसुमेऽग्नेशोमा हविषः प्रस्थितस्य अहमस्मि प्रथमचारृतस्य पूर्वम् देवेभ्यो अमृतस्य नाभिः यो मा ददाति स हि देवमावाह अहमन्नमन्नमदन्तमग्नि पूर्वमग्नेरपितहत्यन्नम् यत्तौ हासा ते अहमुत्तरेषु व्यात्तमस्य पशवः पश्यन्ति धीराः प्रचरन्ति पाकाः जहा अम्यन्येन जहाम्यन्यम् अहान्नम् वशमिच्चरामि समानमर्थम् पर्येमि भुञ्जत् ओ मामन्नम् अनुष्योदयेत परागे अन्नम् वेतम् लोक एतत् विश्वेर्देवैः द्यते लुप्यते यत्पराप्यते शततमे सातनार्मे बभूव महान्तो चरसकृद्दुग्धेन पप्र दिबम् च प्रश्निपृथिवेम् च साकम् वत्संपिबन्तो न मिनन्ति मेधसः एतद्भोजो भवति नोकलीयः अन्नम् प्राणमन्नमपानमाहुः अन्नम् मृत्यन्तमु जीवातुमाहुः अन्नम् ब्रह्माणो जरसम् वदन्ति अन्नमाहुः प्रजननं प्रजानाः मोधमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि बधयत् स तस्य नार्यमणम् सखायं केवलाधो सखायम् केवलाघो भवति केवलादि अहम् मेघस्तनयन् वर्षन्नस्मि मा अहगुंसदमृतो भवामि मदादित्या अधि देवीम् वाचमजनयन्त यद्वाग्मदङ्गी अनन्तामन्तादधिनिर्मिताम् महीम् यस्याम् देव अदधुर्बोधनानि एकाक्षरान्यपदागुंषट्पदाम् च वाचम् देव उपजीवन्ति विश्वे वाचम् देवा, देवा विश्वे वाचम् गन्धर्वाः पशव मनुष्याः चेवा विश्वा भवनाम्यर्पिता सा न हवञ्जुषतामिन्द्रपत्नी सा गक्षरम् प्रथमजातस्य वेदानाम् आतामृतस्य नाभिः सा नाजुषाणापजज्ञमागात् अपन्ते देवे सुहता मे अस्त यादृषया मन्त्रकृतामलेषिणः अन्वै सन् ताम् देवीयम् वाचकम् हविषा जजामहे तारो दधातु सुकृतस्य लोके सर्पानि वाक्परिमिता पदानि तानि विदर्ब्राह्मणायमेषिणः गुहात्रेण निहितानेङ्गयन्ति तुरीयम् वाचोपनुष्या वदन्ति श्रद्धयाग्निः समिध्यते श्रद्धया विन्दते हविः प्रियज्ञश्रद्धे ददतः प्रियज्ञश्रद्धे दिदासतः प्रियम् भोजेषु गध्वसो विदम्ब उदितम् कृधि यथा देवा असुरेषु श्रद्धामग्रेषु चक्रिरे एवम् भोजेषु यध्वसो अस्माकमुदितम् कृधि श्रद्धान्ध्रे वा यतमानाः वायुगोपा उपासदे श्रद्धागुम्भदयया हविः श्रद्धाम् प्रातर्हवामहे श्रद्धाम् मध्यन्दिरम् परि श्रद्धा कुम्भोरिजस्य निम्बृचि श्रद्धे श्रद्धापये हमा श्रद्धादेवानधिवस्ते श्रद्धा, श्रद्धा, श्रद्धा विश्वमिदम् जगत् श्रद्धाम् कामस्य मातरम् हविषावर्धयामसि ब्रह्मजज्ञानम् प्रथमम् पुरस्तात् नशे मतः सुरुचोबेन आवह बुद्ध्य उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः पिताभिराजा वृषभोरजीणाम् अन्तरिक्षम् विश्वरूप आविवेश तमर्कैरभ्यर्चन्ति वत्सम् ब्रह्म सन्तम् ब्रह्मणा वर्धयन्तः ब्रह्मदेवानजनयत् ब्रह्म विश्वमिदम् जगत् ब्रह्मणः क्षत्रम् निर्मितम् ब्रह्म ब्राह्मण आत्मनाः अन्तरस्मिन् विवे लोकाः अन्तर्विश्वमिदम् जगत् ब्रह्मैव भूतानाम् ज्येष्ठम् र्हति स्पर्धितम् ब्रह्मन् देवास्त्रयस्त्रिकंस ब्रह्मन्दिन्द्र प्रजापति ब्रह्मण हविश्वाभूतानि नादेवान्तः समाहिता ततस्र आशा प्रचरन्त्वग्नयः इमन्ना यज्ञन्नयतु प्रचारन् घृतम् बिन्वन्दजरगम् सुबीरम् ब्रह्म समिद्भवत्याहुतीनाम् आगाव अग्नन्वतभद्रवक्रन् चेदन्तु गोष्ठे रणयन्त्वस्मे प्रजापतेः पुररूपा इहायोः इन्द्राय पूर्वे वृषसो दुहानाः इन्द्रो यज्वने प्रणते च शिक्षति उपे ददाति नः स्वम् मृषायति भूयो भूयो रजिमिदस्य वर्धयन्ने अभिन्ने छिन्ने निदधाति देवयो लता भगो गावो मे अच्छात् गावः प्रथमस्य भक्षः इमाया गावः स जना स इन्द्रः इच्छा मे धृता मनसा चिदिन्द्रम् योजङ्गावोमे त यथा कृषञ्चित् अश्लीलम् चित्कृणुधा सुप्रतीकाम् भद्रम् गृहम् उच्यते सभासो प्रजावतेः सोऽवसगम् निशन्तेः शुद्धा अपः सुप्रपाणे मा वस्तेन ईशदमाघश पुंसः परिवोहेति रुद्रस्य वृन्द्यात् उपेदमुपवर्चनम् आशुगोषोपपृच्छताम् उपवर्षभस्य नेतसि उपेयेन्द्र तपवीर्ये रासो गौर्याचन्द्रमसा विश्वभृत्तमा महत् तेजो वसुमद्राजतो दिवि सा लयोर्व्रदम् न ममे चा तु देवयोः उभावन्तौ पर्यात अर्ण्या दिवो नवश्मेगस्तनुतो उभा भवन्ति भुवना कविक्रतो सौर्या न चन्द्राचरतो हतामती पतेद्युमद्विश्वविदा उभा दिवः सौर्या उभा चन्द्रमसा विचक्षणा विश्ववारावरि वोभावरे एण्या नवतम् मतिमन्ता महिम् व्रता विश्वमपरि प्रतरणातरन्ता सुवर्विदा दृशये भूरिरश्मि सौर्याहि चन्द्रापसत्तेष दर्शता मनस्य लोभानुचरतो नु अस्य श्रवो नद्यः सक्तबिभ्रति अस्मे सो आर्याचन्द्रमसाभिचक्षे श्रद्धेकमिन्द्रचरतो विचर्तुरम् ओर्वापरम् चरतो, चरतो मारिलीतौ शिशो क्रीडन्तौ परिजातो अध्वरम् विश्वान्यभुवनाभिचष्टे हृतोऽनन्यो विदधज्जायते पुनः हिरण्यवर्णाश्रुचयः पावका यासा गुम् राजा यासाम् आपो भद्रा आदित्पश्यामि नासदासीम् वा सदासेत्पदानीम् नो नासेद्रजो नोऽपरोयल् किमापरे वह्हतस्य शर्मन् अम्भः किमासेद्गहनङ्गभीरम् न मृत्युरमृतम् तर्हि न रात्र्या अह्नासेत्प्रकेतः आनेतवाचज्ञस्वधजातदेतम् तस्माद्धान्यम् न परः किञ्चना स तम तमसा गूढाग्रे प्रदेतम् सलिलघुम् सर्वमाभिदम् तुच्छेनाभुवपि हितम् यदासीयेत् तमसस्तन्महिना चायतैतम् कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमै सतो बन्धमसज निरविन्दम् ज प्रजेशा कवचोगनेषा चिरस्यैनो विततो रश्मिरेषाम् अधस्विदासीपरि स्विदासी रे बोधा आसम् महिमान आसन् सधा अवस्तात् प्रयतिः परस्तात् को अध्यादेतक इह प्रवोचत् आजाता कुत इयम् विसृष्टिः अर्वा देव अस्य विसर्जनाय अथातो वेदगत आ बभूव इयम् सृष्टिर्गत आ बभूव यदि वा दधे यदि वा नो अस्याध्यक्षः परमे व्योमन् सोऽकेद यदि वा न वेद चिव्यस्यनङ्क उस वृक्ष आसीद यतो निष्ठपक्षः मनेषिणा मनसा पृच्छते दुतते यदध्यतिष्ठद्भुवनानि धारयन् ब्रह्मवनम् ब्रह्म स वृक्ष आसीत् यतोऽद्या वा पृथिवीकृष्टपृक्षो मनीषिणा मनसा विब्रवीमिवह ब्रह्माध्यतिष्ठद्भुवनानि धारयन् प्रातरग्निम् प्रातरिन्द्रगम् हवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भटम् भूषणम् ब्रह्मणस्पतिम् प्रातः सोममुतरुद्रगुम् हुवेम प्रातर्जितम् भगमुग्रगुम् हुवेम भयम् पुत्रमदितेर्यो विभक्ता आद्रश्चिद्यम् मन्यमानस्तुरश्चित् राजाचिद्यम् भगम् भक्ष्येत्याह भगः प्रणेदर्भगसत्यराधः भगे मान्ध्यमुदमदन्नः भगप्रणोजनयगोभिरश्वेः भगप्रणभिर्नृवन्तः स्याम भगवन्तः स्याम उत प्रपित्त उत मध्ये अह्ना उतोदितामघवान् सूर्यस्य वयम् देवानागम् सुमतो स्याम भग एव भगवागम् अस्तु देवाः तेन वयम् भगवन्तः स्याम तन्त्वाभग सर्वयुजो हवीमि स भगपुरदेता भवेह समध्वरा योषसो नमन्त धिक्रामे वशुचये पदाय अर्वाचीनम् वसुमिदम् भगन्नः प्रथमिवाश्वाचि न आवहन्त अश्वावतेर्गोमतेर्न उषासः नैरवतेः सदमुच्छन्तु भद्राः धृतम् दुहानाविश्वतः प्रवीणाः योऽयम् पाद स्वस्तेभ्यः सदा नः